गणेशपुराणं क्रीडाखण्डम् अध्यायं 132 तर्टि टु क उवाच तथ कदाचिद् दैत्येन्द्रसिन्धूरो मदगर्वितः सभासनगदप्राहवृथा मे पौरुषं कृतम् इन्द्रादयो नमे मे युद्धम् ददुर्ब्रह्मादयो हरिः राज्ञां तु गणना नैव मृत्युलोकनिवासिनां कुलीनाया यथा नार्यां यौवनं हि पदीं विना तथा पौरुषं व्यर्थं योद्धृभिर्हि विना भवद तदोऽन्तरिक्षे वाणीं सशुश्रावपरमाद्भुतां वाण्युवाच किमर्थं वल्गसे मूढजातोऽस्ति तव युद्धतः पार्वत्या उदराद्गर्भो वरेण्यगृहगोधुना वर्धते नन्दलीलोऽसौ यथेन्दुःशुक्लपक्षगः क उवाच श्रुत्वेद्धं सहसा वाणीं मुमूर्च्छ सिन्धुरस्तदा विहर्षच्चिन्तयामास किमिदं केन भाषितं यदि दृश्यो भवेन्मह्यं कादेयं तं समस्तकम् कालस्य मे कथं मृत्युः पश्चात् सूर्योदयो यथा एव मुक्त्वोददिष्टत्सगर्जयन्विदिशो दिशः उड्डीयसहसा प्रायात् कैलात्सं गिरिजालयम् पर्वतान् वृक्षान् पादयन् स्वाङ्गमारुताद चलधु कूर्मशेषौ च चकम्बे च वसुन्धरा नदर्श शिवं तत्र पुनः सर्वं सहां ययौ बभ्रामवसुधां सर्वां शिवम् वेगागवेषयन् पर्यल्याख्यं महारण्यमा जगामरुषान्वितः ददर्शदूरदो गौरीसहितं शङ्करं तदा मण्डपं च गणांश्चैव सरांसि चोत्पलानि च ततो जगाम सहसारिष्ठम् गौह्यै प्रकल्पितम् अदृष्ट्वा तत्र बालं सचुकोपाग्निरिवज्वलन् ततः स तर्कयामास न वाणीनभसो मृषा अस्याः सुदोमां हि अन्यान्न जातश्चेद्भविष्यति तस्मादनां निहन्म्यद्य मोदच्छेदस् तदो भवेद क उवाच एवं निश्चित्य मनसा ततः शस्त्रमुपाददे यावदु मां हन्दिदुष्टस्तावद्दृष्टशिष्युः पुरः चतुर्भुजोदिरुचिरो मुकुडाङ्गदभूषितः परशुं कमलं मालाम् दधन्दं च तदद्भुतं कटौ शेषं गलेहारं नूपुरौ चाङ्घ्रियुग्मयोः निवृत्तस्तद्वधा सद्यास्तां च सुप्ताममन्यत दधारबालकं हस्ते काङ्क्षेमुमहो दधौ एवं निश्चितसङ्कल्पस्तदोऽसौ चलितः पुरा तदस बालो ववृद्धे हिमाचल इवापरः सिन्धूरोऽपि चकम्पेशौ मदाभारातुरः क्षणाद श्वासा कुलपुरो गन्तुं न शशाकस्वशक्रिदः तदस्तत्या जदं दैत्यो विह्वलदां गदः बालेदुपतिते भूमौ महारावविराविणः चलुश्च पर्वदानादैश्चकम्बे च वसुन्धरा बभ्रमोर्विहगाव्योम्निनारावविराविणः अर्णवाः क्षोपिता सप्तब्रह्माण्डमपि पुस्फुटे स बालः पदिदोरे मुनिसन्निधौ तत्र तीर्थमभुच्छे अस्या आ जन्मतः पापं नाशमे स्मृतेः क्षणाद् दर्शनाद् दशजन्मीयं स्नाना च सेवनमोक्षदं यस्य अनुष्ठानवतां नृणां तद्देहरुधिरा तत्र त एव नार्मदाख्यादा गणेशाः पापनाशनाः दर्शनात् पूजनात् सर्वकामदा भक्तिकारिणां नर्मदा महिमा सर्वो वर्णितुं नैव शक्यते तद स जह्रषे दैत्यो रिपुर्मेनाशदां गतः तावत्कुण्डात् समुद्भूतो भीषणः पुरुषो महान् जडाभारेण सम्न्नो वल्ली चत्रो धरो यथा दंष्ट्राकरालवदनो जिह्वाव्याली समावृतः दीर्घ पाण्यङ्घ्रियुगलश्वासव्याकुललोचनः दृष्ट्वा तथाविधम् तन्दुक्रोधव्याकुलोचनम् उवाच दैत्यसिन्धूरो न चास्य गणना मम एवमुक्त्वा खड्गहस्तो यय यौहन्तुं खड्गेन खंडी यवत्स दृशेंबरे उच दैत रेदत्यवृधा मं त्यवान्िदवाकूठ वर्ध क्वचिदेवि हनिष्य नून वाधुरक्षणतपर अन्तर्दधे तदो भीम एवमुक्त्वा स पूरुषः ततो दैत्यो महारोषा दुवाच निचसेवकान् ध्रियतां ध्रियतामेष येनोक्तं परुषं वचः यदा तं क्वापि नापश्यत्तदा स्वस्थानमागमद द्रक्ष्यामि तं यदा शत्रुं जयिष्ये इत्यमन्यत यदावच्चरितं तस्य पार्वत्याज्ञायि नैव तद् तस्यैव मायामोहेन प्राप्तया मोहमुत्तमं तद प्रोवाजगिरिशं पार्वती विनयान्विधा अ पीड़ा दैत्य प्रार्ध जगदीश गुम्छा तवेच्छा चेन्नय स्व मेमाकर्ण्य तद्वाक्यं जह्रषे सक आंद सद पावत सह शंक सप्तकोटिगणाकीर्णकैलासं प्रापत्तत्क्षणात् प्रविश्य स्वालयं गौरीपरमं हर्षमाययौ इति श्रीगणेशपुराणे क्रीडाखण्डे कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः ओ